हरि ओम् श्रीसीतारामचन्द्राभ्यं नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे द्वाविंश सर्गः समुद्रस्य सम्मत्या नलेन सागरोपरि शतयोजन विस्तृत सेतुनिर्माणम् तेन श्रीरामप्रभृतिभिः सह वानरसेनया परे पारे गमनं तत्र निवेशनं चेष्ठ सागरं दारुणम् वच अद्य त्वाम् शोषयिष्यामि स्वपातालम् महान्व शर्निग्धतो यस्य परिशुष्कस्य सागर मया निहत सत्त्वस्य पाशु उत्पद्यते महान् मत्कार्मक विसृष्टेन शर्वर्षेण सागर परम् तीरम् बद्धिरेव प्लवङ्गमः विचिन्वन्नाभिजानासि पौरुषम् नापि विक्रमं दानवालय सन्तापम् मत्तो नामागमिष्यसि ब्राह्मेणाश्रेण संयोज्य ब्रह्मदण्ड निभंशरम् संयोज्य धनुषे श्रेष्ठे विचकच महाबलः तस्मिन् विकृष्टे सहसा राघवेण शरासने रोदसी सम्प्रफालेव पर्वताश्च चकिरे तमश्च लोकमावव्रे दिशश्च न चकाशिरे पतिचुक्षुभिरे चाशु स्वरांसी सरितसखतिर्यश्च सह नक्षत्रे संगतो चन्द्रभास्करो भास्करांशुभिरादीप्तम् तमसा च समावृतम् त्रचकाशे चकाशे तदाकाशम् उर्काश च विदीपितम् अन्तरिक्षा च निर्घाता निर्जग्मुहुरतुलस्वनः वप प्रकाशेण वपुरु दिव्यमारुत पङ्क्तयः बभञ्ज च आरुजश्चैव शैलाघ्रान् शिखराणि बभञ्ज च दिवि च स्म महामेघा संहता स महासुना ममचूर्वैद्युतानग्निन् ते महासुनयस्तदा यानि भूतानि दृश्यानि चक्रुषु चाशने समम् अदृश्यानि च भूतानि ममोचूर्भैरवस्वनम् शिशिरे चाभिभूतानि संस्रस्तान्युद्विजन्ति च सन्त्रविव्यथिरे चापि न च पस्पन्दिरे भयात् सह भूतैः सतोयोर्मी स नागसः भीमवेगो महोदधि योजनम् व्यतिचक्राम वेलामन्यत्र सम्प्लवात् तं तथा समतिक्रान्तम् नातिचक्राम राघव समुद्धतमत्रघ्नो रामो नाद नदीपतिम् ततो मध्यात् समुद्रस्य सागरः स्वयमुत्थितः उदयाद्री महाशैलान् मेरोरीव दिवाकरः पन्नगैः सह दीप्तास्यै समुद्र स्निग्धवैदुर्य सङ्काशो शाम्बूनद विभूषणः रक्तमाल्याम्बरधरः पद्मपत्र निभीक्षणः सर्वपुष्पमयीम् दिव्याम् शिरसा धारयन् श्रजम् दातरूपमये चैव तपनीय विभूषणै आत्मजानाञ्च रत्नानाम् भूषितो भूषणोत्तमै धातुभि मण्डितः शैलो विविधै हिमवान्निव एकावली मध्यगतम् तरलम् पाण्डरप्रभम् विपुलेनो रसा बिभ्रत् कौस्तुभस्य सहोदनम् आभूर्णिततरङ्गौघ कालिका नीलसङ्कुलः गङ्गासिन्धुप्रधानाभि आत्मगाभिः समावृतः उद्वर्तितमम् उद्वर्तित महाग्राह सम्भ्रान्तो रघराक्षसः देवतानाम् सुरूपाभि नानारूपाभिरीश्वरः सागरसमुपक्रम्य पूर्वम् मामन्त्रवीर्यवान् अब्रवीत्राञ्जलिर्वाक्यम् राघवम् शरपाणिनम् पृथ्वी वाुराकाशम आो स्वभावे राघव स्वभाव सौम्य ठंडी शाश्वत मग्माश्रिता तत्व महाप्यश यदगाम्लव विकारस्तू भवगात प्रवदम्य प्रवदाम्यहं न कामा न चलो भाया पार्थिवात्मज ग्राहनक्रा कुलजलम् स्तम्भयेयम् कथञ्चन विधास्ये येन गन्तासि विचहिष्येऽप्यहम् तथा न ग्राहा विधमिष्यन्ति यावत् सेनातरिष्यति हरीणाम् तरणे राम करिष्यामि यथा स्थलम् समभ्रवी तदा राम अमोघोऽयम् महाबाण कस्मिन् देशे निपत्यताम् रामस्य वचनम् श्रुत्वा तम् च महाशरम, महो महाशरम् महोदधी राघवं राघवम् वाक्यमब्रवीत् उत्तरेणावकाशोऽस्ति कश्चित् पुण्यतरो मम द्रुमकुल्य इति ख्यातो लोके ख्यातो यथा भवान् उग्र दर्शन कर्माण तह आ प्रमुख पाप पिबंसी सलील मम तैन तत्पशनं पापम स्वयं पापकर्म भी अमोघ क्रीयतायोतम तस्य शुवा सागर सागरस्य महात्मन ममोचरं दीप्तम् परं सागरदर्शनात् तेन तन्मरुकान्तारम् पृथिव्यां किरपि श्रुतं निपातितः शरो यत्र वज्राश निसमप्रभे ननाद च तदा तत्र वसुधा शल्यपीडितः तस्मात् उत्पपात रसातलात् स बभूव तदा कूपो व्रण इत्येव विश्रुतः स तदम् चोत्थिथम् तोयम् समुद्रस्यैव दृश्यते अवधारणशब्दश्च दारुण समपद्यत तस्मात्तद्बाणपातेन अपः कुक्षी श्वशोषयत् विख्यातम् त्रिषु लोकेषु च शोषय तम कक्षि रामो दशरथात्मज वरम तस् विद्वान्ेमर विक्रम पशव्यापरोग फलमूलु बहुस्नेहो बहु क्षीर सुगंध विविधि एवं चयुक्त बहु संयु मरू रामस्य वरदानाच शिव पन्था बभूवः तस्मिन् दग्धे तदा कुक्षौ समुद्रसरिताम्पतिः राघवम् सर्वशास्त्रज्ञम् इदम् भस नमब्रवीत् अयं सौम्य नलो नाम तनयो विश्वकर्मणः पित्रा दत्तवरम् श्रीमान् प्रीतिमान् विश्वकर्मणः एष सेतुम् महोत्साह करोतु मयि वानरः तमहम् धारयिष्यामि यथा हेशः पिता तथा एवम् मुक्तोर्दधि नष्ट समुत्थाय नलस्ततः अब्रवीद् वानर श्रेष्ठो वाक्यम् रामम् महाबलम् अहम् सेतुम् करिष्यामि विस्तीर्णे मकरालये पितुः सामर्थ्यमासाद्य तत्तमाह महोदधि दण्ड एव वरो लोके पुरुषस्येति मे पद्मतिः दीक्ष माम् मृतज्ञेषु शान्तम् दानम् अयम् हि सागरो भीम सेतुकर्म दिदृक्षया दण्डो दण्ड भयागाधम् राघवाय महोदधि मम मातुर्वरो दत्तो बन्दरे विश्वकर्मणा मया तु सदृशपुत्र तव देवी भविष्यति औरसस्तस्य पुत्रोऽहम् सदृशो विश्वकर्मणा स्मारितोऽस्म्यहमेतेन तत्र माहृ महोदधि न चाप्यहमम् मनुक्तोव प्रभूयामात्मनो गुणान् समर्थश्चाप्यहम् सेतुम् कर्तुम् वैवरुणालये ऋणालये तस्मादद्यैव बध्नन्तु सेतुम् वा नरपुङ्गवः ततो विसृष्टा रामेण सर्वतो हरिपुङ्गवः उत्प्रेततुर्महारण्यम् दृष्टा शतः सहस्रश शाखामृग गणर्षभ बभञ्जूपादपान्तत्रचक शुश्च सागरम् ते तालैश्चाश्वकर्णैश्च धवैर्वंशैश्च वानरः कुटजै अर्जुनैतालै तिलकै तिनिशैरपि बिल्वकै सप्तपर्णैश्च कर्णिकारैश्च पुष्पितै दूतैश्च सागरं समपूरयन् स मूलां च विमूलां च पादपान् हरितमा इन्द्रकेतू निवोद्यम्य प्रजर्हो वानरासरुन् तालान्दाडिम गुल्मा चे नारिकेलविभीतगान् गरीरान् बकुलान् निम्बान् समा जर्हु इतस्ततः हस्तिमात्रान् महायकाय पाषाणाश्च महाबलाः पर्वताश्च समुत्पात्य यत्रै परिवहन्ति च प्रक्षिप्यमाणे अचले सहसा जलमुद्धृतम् समुत्ससर्प चाकाशम् अवासर्प ततः पुनः समुद्रम् शोभयामासु निपतन्तः समन्ततः क्षुत्राण्यन्ये प्रगृह्णन्ति ध्यायतं शतयोजनं नलश्चक्रे महासेतुं मध्ये न दनदीपतेः सदा क्रियते सेतु वानरैर्घोनुकर्म दण्डानन्ये प्रगृह्णन्ति विचिन्वन्ति तथापरे वानरैः शतशस्तत्र रामस्याज्ञा पुरस्सरे मेघाभै पर्वताभै च तृणै काष्ठे बबन्धिरे कुष्पिताग्रे च तरुभिः सेतुम् बध्नन्ति वानरः पाषाणा च गिरिप्रख्याम् गिरीणाम् गिरी शिखराणि च दृश्यन्ते परिधावन्तो गृह्य धानवसन्निभ शिलानाम् क्षिप्यमाणानाम् शैलानाम् तत्र पात्यताम् बभूव तुमल शब्द तदा तस्मिन् नहो दधौ कुतानि प्रथमे नाह्ना योजनानि चतुर्दशे प्रवृष्टै गजसङ्काशे वर्माणे प्लवङ्गमे द्वितीयेन तथैवह्ना योजनानि तु विंशतिः कुतानि प्लवगजस्तूर्णम् भीमकायै महाबलै अह्ना तथा योजनाने तु सागरे परमाणे महाकायै एकविंशतिरेव चतुर्थेन तथा चाह्ना द्वाविंशति यथापि वा योजनानि महावेगै कृतानि त्वरितैस्ततः पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः योजनानि त्रयोविंशत् सुवेलमी वै सभान श्रीमा विश्वर्मात्मजी बबंध सागरे से यहाँ पिता तथा स्वल सा। नेतु सागरे मकर शुशु श्रीमान ततो देवास्त देवास्तगंधर्वाय सिद्धा परमशय परमशयः आगम्य गगने तस्थु द्रष्टुकामास्तदद्भुतम् दशयोजनविस्तीर्णम् शतयो जनमायतम् ददृशु देवगन्धर्व नलसेतुम् सुदुष्करम् आप्वन्तम् प्रवन्तश्च गर्जन्तश्च प्रभङ्गमः यद्भूतं लोम अर्चणम् दद्रशो सर्वभूतानि सागरे सेतुबन्धनम् तानि कोटिसहस्राणि वानराणाम् महोजसाम् बध्नन्तः सागरे सेतुम् जग्मो पारम् महो दधे विशाल सुकृत श्रीमान् सुभूमि सुसमाहितः अशुभयतः श्रीमंत युवसागरे तत पारे समुद्र से गा पानेषण परेशाघाता अति सचिव सुग्रीवस्तु रामं सत्य पराक्रमं हनुमत तो अंगदं अंगदम तथा लक्ष्मण अयम ही विपु वीर सागरो मकरालयः वैहायसौ युवामेथौ वानरौ धारयिष्यतः तस्य सैन्यस्य श्रीमान् राम लक्ष्मणः जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः अन्ये मध्ये न गच्छन्ति पाशुतो इन्ये प्रवङ्गमः सलीलम् प्रपतन्त्यन्ये मार्गमन्ये प्रभेदिरे केचिद्वैहाय सगताः सुपर्णः इव पुलुः घोषेण महता घोषम् सागरस्य समुश्रितं भीमं अन्तर्दधे भीम तरन्ती हरिवाहिने वानराणाम् हि सातीर्णा वाहिनी नलसेतुना तीरेन् विविशेराज्ञो बहुमूलफलोदके तदद्भुतं राघवकर्म दुष्करम् समीक्ष देवाससिद्धचारणै उपेत रामम् ससा माशिभि तमभ्युषिञ्चन् शुशुभै जले पृथक् जयस्व शत्रुम् नरदेव मेदिनीम् ससागराम् पालय शाश्वति समा इति नरदेव सद्कृतम् शुभैवचोभिः विविधैः पूजयन् इत्याख्ये मद्रामायणे वाल्मीकीये अधिकारे युद्धकाण्डे द्वाविंश सर्गः श्रीसीतारामचन्द्रार्पणमस्तु